श्रीसीतारामचन्द्राभ्याम् नमः श्रीरामजयम् चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरं पुंसा महापातकनाशनम् श्रीरामचन्द्रुनि चरित्रमु शतकोटि श्लोकमु गानञ्चेयबिनदि अनुली प्रति अक्षरमू महामहापापराशिनि सैतम् न मु रामायणमु नाम रामायणमु अनु पेतो संक्षिप्तमुगेयरूपनं दी। दीनि भक्ति पूर्ति ुटव आलखिंच आलखिचराशी नशिशुद्धिम तरी सीतालक्ष्मणभरतशत्रुघ्न हनुमत्समेत श्रीरामचन्द्रपर ब्रह्मणे नमः राम राम जय राज राम राम राम जय सीता राम भयहरमङ्गल दशरथ राम जय शुजुधब्ध ब्रह्म परात्पर राम कारात्मक परमेश्वर राम शेषतल्पसुखनिद्रित राम ब्रह्माद्यमरप्रार्थितराम श्रीमद्धशरथनन्दनराम कौसल्या सुखवर्धन राम, राम, राम शरथ राम जय जय मङ्गल सीता राम घोरताटकाघातक राम मारीचादिनिपात कराम कौशिकमख संरक्ष क राम श्रीमदहल्यो जय मङ्गल सीता राम गौतममुनि संपूजित राम सुरमुनि वरगण संस्तुतराम नाविकधावित मृदुपद राम मिथिला पुरजन मोदक राम राम राम जय राम जराम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम विदेह मानसरञ्जक राम त्र्यम्बककार्मुकभञ्जक राम ीतार्पितवरमालिकराम कृतवैवाहि ककौतुकराम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्ग राम भार्गवदर्पविनाशक राम श्रीमदयोध्यापालक राम अगणित गुणगणभूषित राम अवनीतनया कामितराम राम राम जय समानन राम पितृवाक्याश्रितकान राम प्रियगुह विनिवेदितपद राम तत्क्षालितनिजमृदुपद राम राम राम जय राज यहर मङ्गल न जय जय मङ्गल सीताराम भरद्वाजमुखानन्दकराम चित्रकूटाद्रिनिकेतन राम दशरथ संतत चिन्तित सन्तत चिन्तितराम कैकेयीतनयार्थित राम राम राम जय राजा राम राम जय सीता राम भयहर मंगल दशरथ राम जय जय मङ्गलसी राम विरचित निज पितृकर्म क राम भरतार्पित निजपादुक राम दण्डकवनजनपावन राम दुष्टराधविनाशन राम राम राम जय शरथराम जय जय अगस्त्यानुग्रहवर्धितराम वृद्राधिपसंसेवितराम पञ्चवटीतटसुस्थित राम राम राम जय राज राम राम राम राम भयहर मङ्गल दशरथ जय जय लसीता राम शूर्पणखार्तिविधाय कराम हर दूषणमुखसुदकराम सीता प्रिय हरिणानुगराम मारीचार्ति कृदाशुग राम राम राम जय राजरा राम राम जय सीता राम भयहर मंगल दशरथ राम जय जय मंगल सीता राम विनष्ट सीतान्वेषक राम भृद्राधिपगतिदायक राम शबरीदत्त फलाशन राम कबन्ध छेदन राम राम राम जय राजा राम राम राम जय सीता राम हर मंगल दशरथ राम जय सेवित निजपद राम नत सुग्रीवाभीष्टतराम गर्वितवालिविमोचक राम वानरदूतप्रेषक राम राम राम जय राजराम रा हर मङ्गल दशरथ राम जय जय मङ्गल सीताराम हितकरलक्ष्मण संयुत राम कपिवर सन्तत तद्गतिविग्नध्वंसकराम सीता प्राणाधारकराम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्ग ीत राम दुष्टदशाननदूषित राम शिष्टहनोमद्भूषित राम सीतोदितकावन का राम कृतचूडामणि दर्शन राम राम राम जय शरथ राम जय जय मङ्गलसीता राम कपिवरवचनाश्वासितराम रावणनिधनप्रस्थित राम वाररसैन्यसमावृतराम शोषितसरिदिशार्धित राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता विभीषणाभयदायक राम पर्वतसेतुनिबन्धक राम कुम्भकर्णशिरश्छेदक राम राक्षससङ्घविमर्दक राम राम राम राम अय हर मङ्गल दशरथ राम जय जय मङ्गलसीतराम अहिमहि रावण दारण राम संहृतदशमुख रावण राम विधि भवमुखसुरसंस्तुत राम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 तराम अभिषिक्त विभीषणनुतराम पुष्पकयानारोहण राम भरद्वाजाभिनिषेवण राम राम राम जय हर मङ्गल दशरथ राम जय जय मङ्गल सीताराम भरत प्राणप्रियकर राम साकेतपुरी दलसत्सपीठ राम राम राम जय राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम पट्टाभिषे कृतराम पार्थिवकुलसम्मानितराम विभीषणार्पितरङ्गकराम कीशकुलानुग्राहक राम राम राम जय सकल जीव संरक्षक राम समस्तलोकोद्धारक राम अगणितमुनिगणसंस्तुत राम राम राम राम जय राज राम राम जय राम जयसी जय राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम सीतालिङ्गननिर्वृतराम नीतिसुरक्षित जनपद राम विपिन जनकज राम कारितलवणा सुरवधराम राम राम जय राज राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीतारा स्वर्गतशम्बुकसंस्तुतराम स्वतनयकुशलवनन्दितराम अश्वमेधक्रतुदीक्षित राम काला वेदितसुरपद राम राम राम जय राजराम राम राम जयसी राम भय हर मङ्गल दशरथ जय जय मङ्गल सीता राम अयोध्याजनमुक्तिधराम विधिमुखविबुधानन्दकराम तेजोमय संस्कृतिबन्ध विमोचक राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीतारा स्थापन तत्पर राम भक्ति परायण मुक्तिधराम सर्वचराचरपालकराम सर्वभवामय वारकराम राम राम जय राज र मङ्गल दशरथ राम जय जय मङ्गल सीता राम वैकुण्ठालय संस्थित जय सीता राम राम जय राजा राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मंगल सीता राम राम राम जयसीता राम राम राम जयसीता राम राम राम जय सीताराम इति श्रीराम रामायणयणं सम्पूर्णम् हरिः ओ बचत् that